्यारम्भं करिष्यामि सिद्धिर्भवतु मे तदा धन्यवादाः नमो नमः पुनः एकवारं सर्वेषां स्वागतं नमो नमः त्रिविक्रममहोदय अद्यदिनस्य पाठः बहु सुलभः बहु सरलः बहु सुलभः प्रथमतः अहमेकं चित्रं दर्शयामि चित्रस्य विवरणं करोतु इति अस्ति किञ्चित् विवरणं तस्य विषये स्वस्य भाषायां एकनिमेषाम् अहं स्क्रीन् शेर् करोमि दृश्यते किन् दृश्यते खलु चित्रम् अस्ति चित्रस्य विवरणं करणीयमस्ति इदानीं राधाभगिनी भवती वदति वा किञ्चित् विवृणोतु चित्रस्य विषये नदी तीरे बालिकाः बालक सन्ति बहु सम्यक् अनन्तरं शुनकाः अपि सन्ति सम्यक् उत्तमं वृक्षाः अपि सन्ति उत्तमं पृष्ठतः पर्वतः सन्ति पर्वताः सन्ति पर्वताः सन्ति सम्यक् पुरतः पुष्पाणि सन्ति पुष्पाणि अपि सन्ति सम्यक् इतोपि इतोपि कः दृश्यते एक एक एकः आकाशे किमस्ति Oh, आकाशे, um, सूर्या अस्ति ओके सो नोषापण्ड् भवती विवरणं तु कृतवती तत्र अस्ति सन्ती शब्दानां उपयोजनं कृत्वा बहु उत्तमप्रकारेण भवती विवरणं कृतवती तत्र किमस्ति यदि वृक्षाः इति वदामः चेत् तत्र अनेक वचनांत अनेकवचना बहुवचना अतः सी तक विषय होती कि बालक अस्थ अस्लक एकवचना बालका बहुवचना तथा बालिका अस् बालि सी अ द्वे अनम अस्पा सी पर्वत अस् पर्वता सी इत कि व अस्तु वीणा राधा भगिनी धन्यवादः वीणा भगिनी इतोपि किं वक्तुम् इच्छति वाट् एवर् राधागिशन् टु से सम्थिङ्ग् अबौट् दि पिक्चर् अत्र आकाशः अत्र आकाशः अस्ति नदी नदी अपि अस्ति नदी अस्ति खलु जलप्रवाहः अस्ति इतोपि वक्तुं शक्यते बालिका शुनकं खादनं ददाति एवं बालिकायाः समीपे शुनकः अस्ति sarve nadin pashyanti okay so these are the different things which we can say ek eka eka malika uh eka balika uh katham ab tum saknuma nama api ab tum saknuma eka balika सुनीता एका बालिका लैक् देट् सो वेन् चित्रविवरणं इस् टु बि डन् Just केन् सी ए that's why I say today's topic is इस्रः सुलभः इति वन्स् वी आर् अवेर् आफ़् एकवचनान्तरूपं बहुवचनान्तरूपं द्विवचनान्तरूपं देन् वी केन् मेक् डिफ़्रन्ट् सेण्टेन्सेस् Okay. so that is the idea of today's topic now we already learned uh, okay before that we have already learned if the word is aparant pullinga ङ्गशब्दस्य कृते अकारान्तपुल्लिङ्गशब्दस्य कृते फार् एक्साम्पल् इफ् ऐ एम् से बालकः तस्य एक एक बहुवचनान्तरूपं किमस्ति पृच्छामि ओके जस्ट् इन् रिविजन् फोर्म् अकारान्तपुल्लिङ्गशब्दः अस्ति चेत् बालकः तस्य बहुवचनान्तरूपं भवति बालिकाः बालकाः आकारान्तस्त्रीलिङ्गशब्दः अस्ति चेत् तस्य बहुवचनान्तरूपं बालिका शब्दस्य बहुवचनान्तरूपं बालिकाः इति भवति ईकारान्त दीर्घ ई नदी फार् एक्साम्पल् तस्य बहुवचनान्तरूपं नद्यः नदी नद्यः इति भवति पुस्तकं नपुस्तकलिङ्गिशब्दस्य बहुवचनान्तरूपम् पुस्तकानि इति भवति ओके नौ द फस्ट् पार्ट् ऐ विल् जस्ट् टेक् द नेम् अण्ड् यु विल् बी टेलिङ्ग् वि द प्लुरल् फ़ार्म् इफ् ऐ एम् सेङ्ग् सिङ्गुलुलर् फार्म् यु विल् बी टेलिङ्ग् वि द प्लुरल् फार्म् इफ् ऐ एम् सेङ्ग् प्लुरल् देन् सिङ्गुलर् ओके so that part we will be doing niba property at a start to start with bharat mohoday bhavan badati va ha yes okay that is start sashaka uh, -oh. ha sasaka ha sasakah sashakah samet अनुजः अनुजाः छुरिका अनुजा छुरिकाः बहु सम्यक् उत्पीठिका उत्पीठिकाः बहु सम्यक् धन्यवादः इदानीम् अनिता भगिनी अनिता भगिनी कर्तरि <coughs> कर्तर्या कर्तर्यः सम्यक् आकाशवाणी आकाशवाण्याः सम्यक् सम्यक् आभरणम् आभरण आभरण भरना, आभरणानि इत्युक्ते किं भगिनि आभरणम् इत्युक्ते ूटर्भर् आभरणानि बहु सम्यक् बहु सम्यक् इदानीं छत्रं छत्राणि बहु सम्यक् ओगस्ट् महोदय धन्यवादः अनिता भगिनी आगस्टु महोदय क्षमसः Sorry, I don't understand the word. Okay. Chama-sah. Chama-sah. Chama. If you take Chama. Pundh. Ah. Huh? Chama ah. Chama-sah. Chama-sah. Bahu-washananta-rubam kimbavati. Chama-sah. Akaranta-pulling. Tatsya bahu-washananta-rubam. Chama-sah. Okay. Latah. Latah. Chama-sah. अजाः अजाः अजाः अजाः अजा अजाङ्गी बालिकाः बालिका अजाः अजा सम्यक् द्रोणी द्रोणी द्रोण्यः बहु सम्यक् चरना। चरना, बहु सम्यक् महोदय धन्यवादः धन्यवादः धन्यवादः राघव महोदय भवान् वदति वा आं भगिनि इदानीं श्रुणोतु सः सः सः तानि सम्यक् नर्तकी नर्तक्यः घटी घट्यः जलं जलानि दलं दलं दलानि बहु सम्यक् राध महोदय धन्यवादः किवत्स महोदय नमस्ते भगिने पे, अग्निपेटिका अग्निपेटिकाः सम्यक् द्रोणी द्रोण्यः छत्रं पत्रम् पत्राणि एषा एषा एषा एताः एताः सा ताः सा बालिका तहा बालिका एषा बालिका एताः बालिकाः एताः बालिकाः हा यथा सा ताः भवति तथा एषा एताः भवति सम्यक् खलु किं किम् किमस्ति पुष्पमस्ति यदा पुष्पाणि सन्ति तत् कानि सन्ति का किं कानि एवं अग्रजः अस्तु अस्तु अग्रजः अग्रजाः बहु सम्यक् धन्यवादः महोदय श्यामला भगिनी भवती वदति वा श्यामला भगिनी अस्ति वा श्यामलाभगिनी अत्र Okay. त्रिविक्रम महोदय भवान् वदति वा स्थालिका स्थालिकाः uh, कथा ते ते रिपी? कथा कथा, स्टोरी कथा कथा, हा. कथाः इति <laughs> कथा सा कथा कथाहा, गायिका uh, uh, गायिका गायिकाः गायिकाः करेक्ट् करण्डकः बहु सम्यक् बहु सम्यक् चक्रम् चक्र चक्रः चक्रम् चक्राणि पुष्पं फलं चक्रं न पुस्तकलिङ्गिशब्दाः सन्ति चक्रं चक्राणि फलं फलानि पुष्पं पुष्पाणि एवम् बहु उत्तमम् उत्तमम् के के आगता अम्बिकापतिमहोदय नमो नमः स्वागतम् ओके अस्तु अम्बिकापतिमहोदयः एकनिमिषं वा स्क्रीन् शेर् करोमि श्यामला भगिनी भवती अपि अस्ति खलु नमस्ते नमस्ते नमस्ते महोदय अस्तु प्रथमता तु अम्बिकापतिमहोदय वदति स्क्रीन् दृश्यते वा कृपया पठतु किञ्चित् अन्ये कृपया म्यूट् करोति वा अन्ये म्यूट् कुर्वन्तु आगच्छतिका पठि पति महोदय एषः एते एक एकनिमिषं महोदय तत् उदाहरणं दृष्ट्वा इति इन्स्ट्रक्षन् रूपेण यद् दत्तमस्ति न कृपया तदपि पठति वा एषः संशयः एषः महोदय महोदय तत्र उदाहरणं दृष्ट्वा अकारान्त तत् इन्स्ट्रक्षन् रूपेण यद् दत्तमस्ति तदपि पठति वा कृपया उदाहरणं दृष्ट्वा अकारान्द पुलिङ्गरूपाणि रिक्तस्थानेषु पूरयतु एषः श्लेषः एते श्लेषाः क्लेशाः डिफिकल्टि इति क्लेशाः क्लेश डिफिकल्टि अस्तु एषः एषः संशयः एते संशयाः एषः व्याघ्रः एते व्याघ्राः तत्र व्याधः इति अस्ति महोदय व्याघः न व्याघ्रः अस्तु अस्तु क्षम्यताम् अस्तु अस्तु चिन्ता मास्तु एषः यागः एते याः ज्ञाः यागाः एषः एते खगाः खगाः खगो खगाः इत्युक्ते तत्र कथं कथमस्ति संस्कृ बर्ड्स् या संस्कृतभाषायां कथमस्ति शब्दानां यत् निर्मितिः भवति हङ्गच्छति हङ्गे नभ आकाशः आकाशं गच्छति ते खगाः खगः खगाः एवम् अग्रिमे गृहगः एते विहगाः बहु सम्यक् अग्रिमे एषः तडागः एषः किञ्जः एतेः पिञ्जाः इत्युक्ते स्विच् एषः शौचालयः एते शौचालयलयाः सम्यक् लया शौचालयाः लयाः सम्यक् लया धन्यवाद महोदय धन्यवाद अनन्तरं शामला भगिनी भवती अस्ति वा भगिनी हा वदतु can you explain when can we use khagah and uh, the other word uh, um, there was other uh, bird also um, can you go back uh, in the previous slide uh, yeah yeah yeah yeah uh, see there is no difference between uh, the meaning of uh, khagah and vihagah meaning remains the same for bird only right but i just explain the origin how these words are origin on the other day i think i remember i told you people about vagrah कथं तत् व्याघ्रः वा आश्चर्यः कथं तस्य निर्मितिः भवति इति खगः खङ्ग् गच्छति इति खगः विहगः तत् वीस् आर् आल् डिफ्रेण्ट् वर्ड्स् मीनिङ्ग् द सेम् बर्ड् सो देर् इस् नो रूल् देट् वेन्टु यूस् खग वेन्टु यूस् विहगः संस्कृतभाषायाः okay. विशेषता का तत् शब्दानां यत् निर्मिति भवति कथम् इति आश्चर्यविषये अहं पूर्वम् एकवारम् उक्तवती आ इति आश्चर्य इत्युक्ते सर्प्रैज् खलु इति चर्या विशिष्टप्रकारेण आ पिन् विथिङ्ग् वेरि सर्प्रैसिङ्ग् वेरि इण्ट्रेस्टिङ्ग् right. आ mm -hmm. इति ध्वनिः चर्या चर्या इस् फेशियल् एक्स्प्रेशन् विशेषप्रकारेण अस्माकं चर्या भविष्यति भवति इति आ इति उच्चारणेन तथैव आश्चर्य व्याघ्रः विशेषेण जिघ्रति इति व्याघ्रः एवमस्ति तत् उत्पत्ति शब्दानां स्वागतम् अस्तु श्यामलाभगिनी भवती पठितुं शक्नोति वा श्यामलाभगिनी नमस्ते नमस्ते भवती पठितुं शक्नोति वा अहं पठामि जिं न दृश्यते इदानीं न दृश्यते न अन्येषामपि न दृश्यते वा अहं दृश्यते श्यामला भगिनी भवती एकवारम् एक्सिट् करोतु पुनः एकवारम् आगमनं भवेत् पर ओके तो श्रीवत्स महोदय भवान् पठति वा आम् आं भगिनि एषः कटः एते कटाः सम्यक् एषः देशः एते देशाः सम्यक् सः ते लेखः सः ओके नौ दि क्वशन् ओके सः लेखः ते लेखाः सः मन्थानः ते मन्था uh, मन, मन्थानाः सम्यक् न भवान् इदानीं भवान् वदतु मन्थानः तस्य कार्यं किमस्ति वयं किं कुर्मः मन्थानेन सहनं कस्य मन्थनं वयं कुर्मः बटर् मिल्क् तक्रम् इति शब्दमस्ति बटर् मिल्क् कृते तक्रम् भोजनान्ते तक्रम् इति अस्ति भोजनान्ते तक्रम् वन् शुड् कन्स्यूम् बटर् मिल्क् देट् इस् आहारशास्त्रस्य विषये अहम् उक्तवती आफ्टर् अवर् मिल्क् भोजनान्ते तक्रम् देट् इस् मन्थान् बै यूसिङ्ग् मन्थान् वि आर् चर्निङ्ग् वित् चर्निङ्ग् स्टिक् विटन् अस्तु अग्रिमे पठतु कृपया सः दण्डः ते दण्डाः सम्यक् सहा शिष्यः ते शिष्याः सम्यक् सहा सरोवरः ते सरोवराः सहा केशः ते केशाः तथा आसन्दः ते आसन्दाः न भवान् स्मरतिवा, वा आशयस्य सरोवर इति एकः शब्दः पूर्व पूर्वस्मिन् पृष्ठे अपि तत्र एकः शब्दः वर्तते लेक् विषये भवान् स्मरति वा नदी तडागः तडाग सरोवरः सरस सरसि जनीये सरोजलस्य तत् बहु किमपि अस्ति तत्र लेख विशेषस्य अपि सरोवरः अस्ति तडागः अस्ति एवम् अस्तु धन्यवादः महोदय ओके राधा भगिनी पठति वा पठामि उदाहरणं दृष्ट्वा क्षणः रे सा क्षणः सा, सा उदाहरणं दृष्ट्वा आकारान्तस्त्रीलिङ्गरूपाणि रिक्तस्थानेषु पूरयतु एषा स्नुषा एताः स्नुषाः एता नलिका एताः नलिकाः एता शर्करा एताः शर्करा चूरिका एषा जयन्ति भगिनी नौट् जस्ट् एण्डम् अगे ऐ बी से इर फ़ार्म् अदर् सङ्गुलुलुलर् फार्म् इम् सेङ्ग् सिङ्गुलर् युल् बि टेलिङ्ग् मि प्लूर फ़ार्म् इफ़् प्लूरल् देन् सिङ्गुलर् oh huh? everybody please pay attention no huh? as to be etat etani samyak kaha kaha kaha ka ka, ka. samyak te leni hmm. te te te te te dikte uh, uh, saha samyak ke hmm. किं किं कानि एषा एषा एषाः एताः सम्यक् एते एते एषः तानि तानि तत् सम्यक् सा ता सा ताः सम्यक् now what you are going to do is see mm. now mm. you have a choice either thalika itidattamassi you can mm. say cha Sa, thalika esha thalika as per mm. your choice looking at the as gender you. you have to place mm. proper cha ba esha ba saha ma ette ma whatever mm. as per your choice correct cha mm. esha stalika लिकाः सा पाचिका ताः पाचिकाः एषा एषा तुला एताः तुलाः एषा नौका एताः नौकाः सा निशा ताः निशाः नेक्स्ट् uh, सा गोशाला ता सेम् mm -hmm. लबे सेम् किलबेन uh, yeah, yeah. mm -hmm. uh. सा सञ्चिका ताः सञ्च uh, सा कोशाला ताह mm -hmm. कोशालाः सा सञ्चिका ताः uh, सञ्चिकाः mm -hmm. uh, सा पाकशाला ताह mm -hmm. पाकशालाह सा पीटिका ताः पीटिकाः सम्यक् नौ सञ्चिका केन् यू जस्ट् टेल् मी अ सिमिलर् वर्ड् वित् सञ्चिका सिमिलर् वर्ड सञ्चिका सेम् टैप् आफ् वर्ड् एस् कुञ्चिका कुञ्चिका कुञ्चिका इत्युक्ते कि लाकल् की धन्यवादः भगिनी धन्यवादः धन्यवादः भगिनी धन्यवादः इदानीम् अवस्तु महोदय पठति अवस्तु महोदय अस्तु भगिनी पठति वा सा पत्रिका सा पत्रिका सम्यक् सा धाविका ताः धाविकाः सा विधानिका ताः विधानिकाः सम्यक् सा परिचारिका ताः परिचारिकाः सा पा लिका ताः पाचलिकाः सम्यक् सा भाषा ताः भाषाः सत्यं सा मरीचिका hmm. ताः मरीचिकाः सम्यक् अग्रिमे अपि नम्बर् त्रीन् आल्सो उदाहरणं दृष्ट्वा तदपि पठके उदाहरणं दृष्ट्वा इकारं तत् स्त्रीलिङ्गरूपाणि रिक्तस्थले रिक्तस्थलेषु पूरयतु डूटिल् नम्बर् त्री अनन्तरम् अन्ये कोऽपि नम्बर् टु एषा अङ्कनी एषा अङ्कनी एताः अङ्कन्यः नेक्स्ट् एषा पितामही एताः पितामहः पितामह्यः हा सम्यक् तृतीय एषा पत्रसुसूची एताः पत्रसूच्यः इदानीं भवान् भवान् जानति वा पितामही मातामही पितामहः मातामहः द्वयोः मध्ये भेदः अस्ति भवान् जानाति वा कः भेदः इति okay. तत्र पितामही इति दत्तमस्ति पितामही शब्दस्य अर्थबोधः किं भवति तत्र ब्याकेट् मध्ये किं दत्तमस्ति वट् इस् गिवन् इन् द ब्राकेट् ग्रेण्ड् मदर् पेटर्नल् चैल्ड् ग्राण्ड् मदर् इस् पितामही इदानीं मातामही इत्युक्ते किम् चिन्तनं करोतु नल् ग्राण्ड् मदर् बहु सम्यक् मातामही मेटर्नल् ग्राण्ड् मदर् इदानीं वदतु पितामहः इत्युक्ते कः पितामहीमाद पितामही ग्राण्ड् मदर् paternal. भवान् महाभारतं जानति खलु पितामहः भीष्मः iti. ग्रेण्ड् फादर् पितामहः ग्रेण्ड् मदर् पितामही Both from? ...paternal side. Grandmother maternal will be... ...what would be the word for grandmother maternal? Mithamahi. Mata Mahi. Maa. Ma oh, Mitham. Pat, Mata Mahi. Ma no, no, no, sham, Mitham, no. Chinta maz tu bahan. Pratnam karutu svayam sarve... ...patnam asmabihitam... ...patnam evo karaniyam asti. Grandmother maternal will be... Mata-mahi. Now, what would be grandfather-maternal? Mm -hmm. Pita-maha. Mata-maha. Mata-maha. Ah. Okay. Paternal side. Pita. Pita-mahi. Pita-maha. Maternal side, Grandmother, Grandfather. ग्रेण्ड् फादर् मातामही मातामहे सो देट् इस् दि डिफ़्रेन्स् सः vartati, tatra. Grandmother, iti tu asti. तु to be more specific, Paternal side, Grandmother. Maternal side, Grandmother. मेटर्नल् सैड् ग्रेण्ड् मदर् दादा दादी नाना नानी एवमस्ति तथैव पितामही पितामह, मातामही मातामह स्पष्टमस्ति अवस्तु महोदयू yes, yes. yes, huh? धन्यवादः अग्रि में uh, अनिता भगिनी पठतिवा? अनिता भगिनी पठामि <laughs> नर्तकी एषा नर्तकी एताः नर्तक्यः सा सम्मार्जनी ताः सम्मार्जन्यः एषा वेल्लनी एताः वेलन्यः वेल्लनी इत्युक्ते किं भवति भगिनी किन्तु वेल्लनि इत्युक्ते किं मिनिङ्ग् पेन् रोलिङ्ग् पेन् वट् डु वि डु विकां न भवती तु सर्वमेव जानति खलु रोटिकां वयं किम कुर्मः बेल उपयोजि रोटि काहु सम बहुत सम्य अग्रिमे पटति वनिता भगिनी कंटिू करा सूची, सूची सामयूरी मयूरी त मयूा जननी जनन्य हाँ इधान एक निमेश जननी कृते अन्ये शब्दाः सन्ति वा माता सम्यक् अग्रिमे सा अवसर्पणि सर्पिणी उ सा अवसर्पिणी सा अवसर्पिण्यः अवसर्पिणि सा अवसर्पिणी अवसर्पिण्यः सा चालनी ताः चा चालन्यः सा जलकूपी ताः जलकूप्यः एषा दूरवाणी एताः दूरवाणी वाण्यः सम्यक् एषा द्विचक्री चक्र्यः सम्यक् धन्यवादः भगिनी धन्यवादः धन्यवादः धन्यवादः सन्देहः अस्ति द्विचक्रिका इति आकारान्तस्त्रीलिङ्गमध्ये अपि भवति खलु द्विचक्रिका अपि आकारान्तश्रीलिङ्गे अपि अस्ति सम्यक् द्विचक्रिका यदि द्विचक्रिका इति अस्ति चेत् तस्य बहुवचनान्तरूपं hmm. द्विचक्रिकाः इति भवति hmm. hmm. hmm. परन्तु द्विचक्रि इति दत्तमस्ति द्विचक्रिका hmm. नदी एव च hmm. द्विचक्रिका इकारान्तस्त्रीलिङ्गकारान्तस्त्रीलिङ्ग hmm. hmm. hmm. hmm. अग्रिमे विना भगिनी पठति वा hmm. अग्रिमे <coughs> <coughs> <coughs> <coughs> पठति सा धरणी ताः धरण्यः सम्यक् सा भगिनी hmm. ताः भगिन्यः hmm. सा मषी hmm. ताः मशिन्यः हा मशिन्यः एव न तत् मशी एव अस्ति नदी एव नद्यः नद्यः मह्यः सा युवती ताः युवत्यः सा वर्णलेखनी ताः वर्णलेखिन्यः लेखन्यः लेखन्य लेखन्य सम्यक् साघटी हस्तघटी इति सोरि oh, हस्तघटी hmm? ताः हस्तघट्यः सम्यक् बहु सम्यक् इदानीं okay. त्रिविक्रममहोदय भवान् पठति वा yes, yes. त्रिविक्रममहोदय अस्ति वा पठति वा पठति हा पठतु पठतु किञ्चित् उच्चैः पठतु उदाहरणं दृष्ट्वा अकारान्त mm -hmm. mm -hmm. नपुंसकलि mm -hmm. नपुंसकलिङ्गलिङ्गरूपाणि नपुं रिक्तस्थानेषु mm -hmm. एतत पूरयतु mm -hmm. एतत् आर्द्रम आर एतत् आर्द्रम् mm -hmm. एतानि आर्द्राणि एतत् आर आलूकम् एतानि आलुकानि एतत् उदरं एतानि उदराणि सम्यक् ए एत, एतत् ओदनम् एतानि ओ ओदन एतानि ओदनानि ओदनानि एतत् कङ्कणम् एतत् कङ्कणम् एतानि कङ्कणानितत् कृष्णफलकं एतानि कृष्णफलकानि एतत् एतत् कृतम् ए एतानि कृतानि एतत् चन्दनम् ए एतानि चन्दनानि बहु सम्यक् बहु सम्यक् त्रिविक्रमहोदय धन्यवादः अग्रिमे राघोमहोदय एतत् चूर्णं एतानि चूर्णानि तत् दलं तानि दलानि तत् दुग्धं तानि दुग्धानि तत् नक्षत्रं तानि नक्षत्राणि तत् नगरं तानि नगराणि तत् नयनं तानि नयनानि तत् फनसं तानि फनसानि तत् पयोहिमं तानि पयोहिमानि तत् त्रिशूलं तानि त्रिशूलानि बहु सम्यक् धन्यवादः धन्यवादः इदानीं अम्बिकापटिमहोदय भवान् पठति वा आं भगिनि तत् नयनं तानि नयनानि तत् फनसं तानि फनसानि तत् पयोहिमं तानि पयोहिमानि त्रिशूलं तानि त्रिशूलानि तत तत् फेनकं नाटकं तानि नाटकानि सत् पात्रं तानि पात्राणि पात्राणि सम्मत् महोदय धन्यवादः धन्यवादः अस्तु ओके इदानीं यत् वयं पठितवन्तः ते सन्ति व्याकरण अंश किमस्ति व्याकरण अंशाः सन्ति नूतनतया के के आगताः अत्र मिनल भगिनी मीनल् भगिनी अस्ति श्रोति वा भगिनि मीनल् भगिनी नमस्कारः श्रूयते Uh, यत य हाँ यद पठितवं हा, ते सी व्याकरश् उदेव चेत इन भवन एक वदसंग्रह से लाभः ताभ क किमपि यत् मनसि आगच्छति कृपया वदतु भाषां सम्यक् लर् हौ टु से शिक्षा अध्ययनम् अध्ययनं कर्तुं शक्नुमः बहु सम्यक् बहु सम्यक् अनिता भगिनी हा प्रश्नं किं प्रश्नः अस्ति वयं व्याकरण अंशाः पठितवन्तः ऐ मीन् I mean, केचन व्याकरण अंशाः वयं पठितवन्तः इदानीं पर्यन्तं शब्दसङ्ग्रहस्य अपि प्रयत्नः तत्र जायते कथम् अस्माकं शब्दसङ्ग्रहस्य वर्धनं भवेत् इति तस्य कः लाभः कुत्र भवति संस्कृतपठनं संस्कृत किं लाभः संस्कृतपठने अपि लाभः भवति अन्ये विनल् भगिनी अन्येषु स्थलेषु अपि लाभः भवति वा भगिनि सम्यक् न अहम न श्रुतवती सम्यक् अस्तु एकवारम् अन्यकोपि वदति वा अनन्तरमपि भवती वदतु मिनल् भगिनी अन्यकोपि लाभः किमस्ति तत्र श्लोकपठामि लाभः पठने. सत्यं सत्यं सुभाषितपठने अपि तस्य लाभः भवति एव अर्थं जानीमः किल स्व अवगमनार्थोषः स्वस्य अवगमनार्थ स्वस्य अवगमनम् इति आनन्दस्य विषयः इदानीं ऐ एम् जस्ट् शोयिङ्ग् यु द एप्लिकेशन् नो दिस् एव्रीबडी ऐ थिंक् आल्मोस्ट् आल् आफ़् अस् आर् अवेर् आफ़् आल् दीस् बालकः बालकाः बालिका बालिकाः एण्ड् आल् एण्ड् अस्ति सन्ति एण्ड् आल् सो वस् द एप्लकेशन् देट् ऐ वोण्ट् टु शो यु टुडे इट् सेल्फ़् सी इफ् यु आस् द चिल्ड्रन् इ् यु आस् देम् टु लर्न् व्याकरण अत्र मन्ये त्रिव्रम महोदय अपि विद्यार्थी छात्रः एव अस्ति तत्र च सी वेन् वी आर् टेनिङ्ग् स्टुडन्ट्स् बाय हार्ड् डिस् एण्ड् बै हार्ड् अण्ड् देट् ग्रामर्ण्ड् आल् दे गिट् बोर्ड् बट् वेन् दे अण्डर्स्टाण्ड् द एप्लकेशन् आफ् देट् पार वट् वी आर् टाकिङ्ग् अबौट् स्वस्य अवगमनार्थ सेल्फ़् अण्डर्स्टाण्डिङ्ग् देट् इस् अ प्लेजर् आफ़् लर्निङ्ग् सो वट् वी आ गोण्ट् टु डु टुडे ऐ be I have taken one story for you And then in the Story itself we are making the द ट्रान्स्फोर्मेशन् अस्ति सन्ति सिङ्ग्युलर् प्लूरल् एण्ड् आल् एण्ड् देन् यू विल् रियलैज् देट् वि अण्डर्स्टाण्ड् इट् इन् अ बेटर् वे बै नोयिङ्ग् व्याकरण अंशाः वी आर् अण्डर्स्टाण्डिङ्ग् इट् इन् अ बेटर् वे ओके सो लेट् अस् स्टार्ट् देट् पार्ट् सर्वे सज्जाः सन्ति खलु सज्जाः सन्ति श्रुण्वन्तु सर्वे शृण्वन्तु ओके एकः गुरुः पृच्छति एकः गुरुः पृच्छति न चिन्तयतु तत्र गुरुः पृच्छति इति वाक्यमस्ति इफ् ऐ वाक् लुरल् आफ़् इट् कथं भवति भारतमहोदयः गुरवः बहु सम्यक् बहु सम्यक् गुरवः पृच्छन्ति गुरुः पृच्छति गुरवः पृच्छन्ति देट् मीन्स् इन् अण्डर्स्टाण्ड् इट् इन् दिस् वे इमिडियेट्लि द पिक्चर् कम्स् इन् अवर् मैण्ड् तत्र गुरुः अस्ति सः शिष्यान् उपदेशं करोति अनन्तरं सः शिष्यान् पृच्छति ओके सो हि इस् आस्किङ्ग् द क्वशन् एकः गुरुः शिष्यान् पृच्छति कः प्रश्नः पृच्छति इदानीं प्रश्नः कः किं पृच्छति किं पृच्छति प्रश्नः कः वट् इस् द क्वशन् सम्भाषणं कर्तुं कति जनाः जानन्ति वट् इस् देशन् सम्भाषणं कर्तुं kati janaha jananti can anybody translate it in english how so many people know how to converse ah bahusham so me kanita bagini how many people know kati janaha jananti janaha jananti make the singular of it जनाः जानन्ति जनाः जानन्ति जनः जानन्ति जनाः जानन्ति ओके सो नो ही इस् आस्किङ्ग् द क्वेशन् सम्भाषणं कर्तुं कति जनाः जानन्ति सम्भाषणं कर्तुं त सर्वे जानन्ति खलु वी आल्सो नो हौ टु स्पीक् एव्रिबडि नोस् वयं सर्वे सम्भाषणं जानीमः एव वयं सर्वे सम्भाषणं जानीमः एव इति सर्वे शिष्याः वदन्ति आल् डिसैपल्स् गेटिङ्ग् एक्सैटेड् सर्वे शिष्याः ससन्तोषं स सन्तोषं सन्तोषेण सह वित् आल् प्लेजर् आल् स्टार्टेड् सेन् आल् डिसैपल् वयं सर्वे जानीमः We all know how to speak. Okay? See, that way everybody knows how to speak. Vayam sarve sambhashanam jani maha. Iti sarve shishyaha sasantosham vadanti. Eganim, shishyaha vadanti. Just transform it into singular. Shishyaha vadati. Shishyaha vadati. Shishyaha vadati. Samhya. Okay. Okay. now so that was the answer he is getting from the his uh, disciple now what guru is addressing guru hu atra upadesham karuti tat upadesah yatasti sah ativ mahatvapurnah asti asmakam krute api shishyanam krute api sarveshuna सर्वे इती अहम जानवा संभाषणे समर्था सर्वे मनवा संभाषण कर्े समर्थ सी अहम जा परंतु उत्तमानि वचनानि एव वदति उत्तमानि वचनानि एव वदति तत्र वचनानि लिङ्गवचनस्य विषये वदतु कोऽपि वदतु वचनं नपुंसकलिङ्गकवचनं तथैव उत्तमानी वचनानि उत्तमं वचनं पचनं करेक्ट् सुन्दरः बालकः सुन्दराः बालकाः एवम् उत्तमानि वचनानि एव वदति तादृशसामर्थ्यान् कः अस्ति वा कः अस्ति वा किं पृच्छति गुरु कः अस्ति यः उत्तमानि वचनानि एव वदति कः अस्ति जस्ट् ट्रान्स्फार्मिट् इन्टु प्लुरल् कः अस्ति सम्यक् के सन्ति कः अस्ति के सन्ति उत्तमानि वचनानि एव वदति तादृशसामर्थ्यवान् कः अस्ति न इदानीं जस्ट् ट्रान्स्लेटेड् इन्टु आङ्ग्लभाषायां परिवर्तनं करोतु कः अस्ति उत्तमानि वचनानि एव वदति तादृशसामर्थ्यवान् वट् वास् देशन् बै गुरु जस्ट् ट्रान्स्लेटेड् इन्टु इङ्ग्लिश् गुड् उत्तमानि एव उत्तमानि वचनानि एव वदति द पर्सन् हू स्पीक्स् ओन्लि गुड् सेण्टेन् तादृशसामर्थ्यः कः अस्ति वा सो देट् वास् देशन् पुड् बाय् गुरुकम् स्पीच्लेस् नो आन्सर् फ्रोम् डिसेबल्स् अनन्तरं गुरुः स्पष्टीकरणं ददाति द स्पष्टीकरणं पार्ट् इस् वेरि इम्पार्टेण्ट् फार् आल् अस् जस् पी सेण्ड् केर्फुलि गुरु गुरोः वचनानि सन्ति वेरि इम्पार्टेण्ट् जस्सी हि इस् गिविङ्ग् नम्बर् आफ़् एक्साम्पल्स् एण्ड् स्टेटिङ्ग् एन् इम्पार्टेण्ट् आफ् उत्तमानि वचनानि इफ् यु रिमेम्बर् अवर् एल्डर्स् अवर् पेरेण्ट्स् दूस् टु टीचर्स् रैट् उत्तमम् एव वदतु तस्य महत्त्व अस्ति एतस्य उत्तनी वचना महत्व कितरो स्पष्टीकरण सर्वे शुण्वत वो विविध वायु इत्युक्ते पवन वाट एर्विधा रूप विविधानि रूपाणि रूपाणि शब्दस्य विषये वदन्तु रूपाणि लिङ्ग जयजनयणवचनं रूपं नपुंसकलिङ्ग एकवचनं रूपाणि बहुवचनरूप नपुंसकलिङ्गयोः विविधानि रूपाणि भवन्ति वायोः विविधानि रूपाणि ऐ मीन् देर् आर् डिफ्रेण्ट् फार्म्स् आफ् एर् वट् आर् दीस् गुरुः वदति अति वेगवान, अति उग्रह, अतिगवा अतिग्र दुर्गंधदु विधा रूपा परंतु दुर्गंधादियुक्त वायु हु। अति वेगवान वायु अतिग्रवायु कोपी इच्छति वा? न।, कोपी न इच्छति इच्छति नो बडी बाण्ड्स् नो बडी बाण्ड्स् अतिवेगवान् स्विण्डी एण्ड् बेडर् एण्ड् विगन्धादियुक्त नो बडी बाण्ड्स् कः अपि न इच्छति कः न इच्छति जस्ट् मेक् प्लुरल् आफ़् इट् के न इच्छन्ति न इच्छन्ति कः अपि न इच्छन्ति ट्रै टु अण्डर्स्टेण्ड् गुरुः हि सैटिङ्ग् डिफ्रेण्ट् एक्साम्पल्स् फ्रोम् पञ्चमहाभूतानि पञ्चमहाभूतानि सन्ति खलु वायुः अस्ति जलम् अस्ति अग्निः अस्ति तेषाम् उदाहरणं दत्त्वा स्पष्टीकरण गुरु ददगवा अतिग्र दुर्गंधा क्छतिषा कथम भव शीत सुगंधयुक्त वायु सर्व सुगंध प्रिय एव्रिबडि वास् शीतल आह्लाददायकः सुगन्धयुक्तः वायु, तथैव कमिङ्ग् टु हीट् अग्नि फार् हीट् द वर्ड् इस् आतपः आतपः इस् सूर्यस्य प्रकाशः सूर्यस्य प्रकाशः इत्युक्ते आतपः उग्रः आतपः न कः अपि इच्छति ओके okay, स्ट्राङ्ग् सन् uh, स्ट्राङ्ग् हीट् uh, आफ् सन् नो बडि बाण्ड्स् वयं किं कुर्मः प्रातःकालीन सायङ्कालिनः आतपः एव सर्वेषां कृते प्रियः अस्ति वि गो फोर् अ वाक् अर्लि इन् द मार्निङ्ग् बिकास् देट् प्रातःकालीनसूर्यप्रकाशः अस्माकं कृते उपयुक्तः अस्ति इदर् अर्लि in the मार्निङ्ग् आर् इन् द इविनिङ्ग् प्रातःकालीनः सायङ्कालीनः सूर्यप्रकाशः सर्वेषां प्रियः उग्रः आतपः न कः अपि इच्छति ओके सो देट् इस् वायुः अग्निः सूर्यप्रकाशस्य विषये अनन्तरं जलं जलप्रवाहः यदि अतिवेगवान् वा मलिनः अस्ति चेत् सः अपि न कस्यापि प्रियः नो बडी अतिवेगवान् वा डर्टी वाटर, देट् आल्सो नो बडी बाण्ड्स् सर्व कं प्रिय अस् यवाह शातया प्रवह जल प्रवाह स्वच्छ अस्े जनाछे जी यहालवाह शान्ततया प्रवहति शान्ततया वहति यह जलप्रवाहः स्वच्छः अस्ति सह एव सर्वे जनाः इच्छन्ति अतः न गुरु हेस् गिवन् एन् एक्स्प्लेनेषन् गिविङ्ग् एन् एक्साम्पल् आफ् जलं पवनः वायुः मरुतः पवनः अनन्तरं सूर्यप्रकाशः एण्ड् नौ ही इस् एक्स्प्लेनिङ्ग् हिस् ओन् पायिण्ट् अतः अस्माकं वचनम् अपि मन्द शीतलपवनम् इव मन्द शीतलः वायुः इव कोमलः आतपः इव निर्मलः स्वच्छः प्रवाहः इव मृदु मधुरः ध्वनिः इव च भवेत् वट् इस् द मेन् पायिण्ट् वचनानि कीदृशानि भवेत् मन्दशीतलपवनः इव इव इस् गिविङ्ग् एन् एक्साम्पल् शोयिङ्ग् द सिमिल्यारिटि वचनानि अस्माकं वचनानि मन्दशीतलपवनः इव कोमलह आतपः इव निर्मलः स्वच्छप्रवाहः इव मृदु मधुर मेलोडियस् ध्वनिः इव ध्वनि सौण्ड् ध्वनिः इव च भवेत् इति केन् एनिबडि ट्रान्स्लेट् इट् दिस् लास्ट् सेण्टेन्स् अस्माकं वचनं मन्दलशीतल वायुः इव कोमलः आतपः इव निर्मलः स्वच्छः प्रवाह इव मृदुमधुरध्वनिः इव च भवेत् एनिबडि वुड् ट्रै पार्ट् बै पार्ट् ओल्सो यू केन् दीर्घवचन हा बहु तस्मात् तस्मात् कारणात् एव अहं पृच्छामि पार्ट् बै पार्ट् ट्रै टु डु एकैकं वदतु प्रथम अम्बिकापतिमहोदय वदतु मन्दशीतल वायुः इव लैफ्लो विन्ड् शीतल कोल्ड् सम्यक् इदानीं भगिनी कोमलः आतपः इव साफ्ट् अण्ड् जेण्टल् किरणः करे अनन्तरं राघवमहोदय निर्मलः स्वच्छजलप्रवाहः राघवमहोदय नास्ति वा अस्तु श्रीवत्स महोदय लैक् प्यूर् प्योर् वाटर् येस् प्योर् क्लीन् वाटर् सम्यक् इदानीं श्यामला भगिनी मृदु मधुरः ध्वनि मधुरः ध्वनिः uh bahut so, uh avada avadi melody sweet voice like geeta okay. beninis uh, voice are thank you thank you thank you okay so uh now this is how अस्माकं वचनानि भवेत् इति गुरुः स्पष्टीकरणं दत्तवान् वट् इस् दि इम्पार्टेन्स् आफ् उत्तमानि वचनानि मधुराणि वचनानि सह सः स्पष्टीकरोति उत्तमानि प्रभावजनकानि निष्कपटानि प्रीतिपूर्वाणि वचनानि एव सर्वग्राह्याणि भवन्ति So, just सो जस्ट् ट्रै टु अण्डर्स्टाण्ड् उत्तमानि सी वै The purpose of this story is We are We already वचनं Vachanam Napusakalingi Singular Vachanani Napusakalingi पुसकलिङ्गी Now, this long sentence I am not expecting you to remember each and every word But if you can If we know the grammar व्याकरण अंशः तत्र पश्यतु उत्तमानि वचनानि प्रभावजनकानि वचनानि निष्कपटानि व्यच वचनानि तत्र कपट इति नथिङ्ग् टु न, न, रिसीव् प्रीतिपूर्वाणि वचनानि अफेक्षनेट् एव भवन्ति इति दत्तमस्ति भवन्ति इस् अगेन् प्लुरल् ओके okay? सो इवन् दो वी कान् ट्रान्स्लेट् ईच एण्ड् एव्री वर्ड् ओर् इवन् दो वी केनाट् रिप्रोड्यूस् इच एण्ड् एव्री वर्ड् वी केन् अण्डर्स्टाण्ड् वित् द हेल्प् आफ़् ग्रामर् वाट् इस् द एसेन्स् आफ़् द स्टोरी अनन्तरं गुरुः वदति यस्य वचनानि मधुराणि तस्य एव यस्य वचनानि मधुराणि तस्य एव लोकः वशे भवति लोकः इत्युक्ते सोसैटि इति अर्थम् वशे भवति एव्रीबडि अड्मायर्स् वशे इस् हि केन् वीन् द हार्ट्स् आफ् मेनि पीपल् इन् सोसैटि बै हिज् मधुराणि वचनानि सो नाट् इस् दि इम्पोर्टेण्ट् पायिण्ट् सर्वे आगच्छन्तु सर्वे मिलित्वा वयं संस्कृतसम्भाषणं कुर्मः किमर्थं भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती अस्माकं संस्कृतभाषा मधुरा अस्ति मुख्या अस्ति सरला अस्ति सुलभा अस्ति अतः वयं सर्वे सम्भाषणं पठामः सम्भाषणं कुर्मः अवगतम् प्रभाव प्रभावार्थं किं भगिनि हा प्रभाव जनकानी इति एकः एजेक्टिव् विशेषणपदमस्ति प्रभावजनकानि इस् प्रभाव इस् यू आर् क्रियेटिङ्ग् इम्पेक्ट् ओके वेन् युर् लेङ्ग्वेज् इस् पवर्फुल् मधुराणि वचनानि यदा वयं वदामः चेत् इट् आल्वेस् क्रियेट्स् अ पासिटिव् इम्पेक्ट् आन् अदर्स् मान् देट् इस् प्रभाव जनक जनरेटिंग, prabhav is impact that creates a positive impact among the people that is prabhavjanakani nishkapatani tatra kapatam vakil misham iti nashti saralata asti tasmin priiti pritipurvani affectionate okay so just i just want to make you don't get scared of big big words and tatra klishtata asti o evum बहु कठिनम् एवम् इति न ऐ जस्ट् वाण्ट् टु मेक् यू फेमिलियर् वित् डिफ्रेण्ट् एब्जेक्टिव्स् एण्ड् देन् ऐ वाण्ट् टु रिलेटेड् टु दि जेण्डर्स् एण्ड् वचन वचनानि तत्र सिङ्ग्युलर् प्लूरल् श्रीलिङ्गिरूपम् पुल्लिङ्गिरूपं नपुंसकलिङ्गिरूपं कथं भवति एवं तदेव मम उद्देशः अस्ति अतः तत्र एकः इतोपि एक अस्ति तत् पुनः एकवारं वदामि भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम् ओके सो दिस् स्वीट् एण्ड् मधुर् लेङ्ग्वेज् संस्कृत लेङ्ग्वेज् देर् दि वेरि मच इम्पाक्ट्फुल् इस् काव्यम् एण्ड् इन् काव्य काव्येषु अपि सुभाषितम् इति मधुरम् अस्ति मधुरं सुभाषितम् अट् मोस्ट् इम्पार्टेण्ट् माधुर्य इति वचनेन तत्र अट् मोस्ट् इम्पार्टेन्स् इस् गिवन् टु सुभाषितम् सो अन्तिमे वयं सुभाषितस्य पठनं कुर्मः तत्रापि व्याकरण अंशाः तस्यापि सन्दर्भेण वयं पठिष्यामः अनन्तरं समापयामः सम्यक् अस्ति <muchasiva>? अस्तु इदानीं वयं सुभाषितस्य पठनं कुर्मः एकविंशति कः पठितुं कः वा का पठितुम् इच्छति अहं पठामि एकनि अहं पठामि कः वदति का वदति इदानीं स्क्रीन् न ऐ मीन् स्क्रीन् अस्ति मम पुरतः कः वदति जयन्ति भगिनी वा अहं जयन्ती भगिनी न श्यामला भगिनी उक्तवती वा का उक्तवती अहम् उक्तवती भवत्या भवत्याः अहं का उक्तवती श्यामला श्यामला भगिनी ओके अस्तु अस्तु श्यामला भगिनी पठतु पठतु न दृश्यते अन्येषामपि स्क्रीन् न दृश्यते दृश्यते भगिनी दृश्यते ओके अस्तु अन्यकोपि अस्तु अवस्तुमहोदय भवान् आरम्भं करोतु अनन्तरं श्यामला भगिनी अपि वदेत् अवस्तु महोदय भवान् पठति नद्यः स्वयम् एव न अम्भाः स्वयं नादन्ति फलानि वृक्षः वृक्षाः न खादन्ति सस्यं खलु वारिवाहाः सम्यक् काराय बहु सम्यक् बहु सम्यक् सम्यक् ओके सो दिस् इस् सुभाषितम् नौ जस्ट् वि केन् जस्ट् विग्रह कृत्वा विविध सेपरेट्लि किन्तु स्माल् स्माल् सेण्टेन्स् अम्बः अम्बः इत्युक्ते जलम् water now when you look at the first sentence it is nadyah ambah na pibanti nadyah na pibanti nadyah na pibanti ambah now just small term nadyah na pibanti इदानीं श्यामलाभगिनी एकवचने तस्य परिवर्तनं करोतु नद्यः न पिबन्ति कथं भवति श्यामलाभगिनी अस्तु तर्हि वीणा भगिनी नद्यः न पिबन्ति परिवर्तनं करोति वा परिवर्तनम् करो नद्यः न पिबन्ति एवं स्वीकरोतु एकवचने परिवर्तनं करोति वा नदी न न पिबति बहु सम्यक् नद्यः न पिबन्ति नदी न पिबति ओके नौ कमिङ्ग् टु द मीनिङ्ग् नद्यः स्वयम् एव अम्बः डेटि जलं न पिबन्ति देट् मीन्स् स्वस्य जलानि स्वयम् एव नद्यं नद्यः न पिबन्ति दि लिवर्स् डु नोट् ड्रिङ्क् देयर् ओन् वाटर् डु दे ड्रिङ्क् देर् ओन् वाटर् नद्यः स्वयम् एव स्वस्य एव जलं स्वयम् एव अम्बः न पिबन्ति ओके द्वितीय द्वितीयवाक्ये पठतु विना भगिनी किं दत्तमस्ति हा त्वयं न खादन्ति फलानि वृक्षाः वृक्षाः फलानि न खादन्ति एवं वृक्षाः फलानि न खादन्ति तस्य एकवचने परिवर्तनं करोतु अनिता भगिनी अनिता भगिनी खादति फलानि वृक्षः बहु वृक्षः स्वयं फलानि न खादति नद्यः स्वयम् एव अम्बः न पिबन्ति तथैव स्वयम् एव स्वयं फलानि स्वयं वृक्षाः फलानि न खादन्ति इत्युक्ते डि ट्रीस् डु नाट् इट् डेर् ओन् फ्रुट्स् जस्ट् एस् रिवर्स् डु नोट् ड्रिङ्क् डेर् ओन् वाटर्स् ट्रीस् डु नोट् इट् डेर् ओन् फ्रुट्स् अग्रिमे वाक्यं वाक्ये पठतु अनिता भगिनी एवं खलु वारिवाहाः वारिवाः वारिवाह इत्युक्ते जलं जल जल हू केरीज़् जलं हू केरिज़् वाटर्लौड् मेघाः तत्र मेघाः जलदाः सर्वे शब्दाः अस्ति वारिवाः वाणि वा न सस्यं खादन्ति अत्र सस्यम् इत्युक्ते क्राप् ओके सो दौड् खलु इस् इण्डिड् मेनि टैम्स् यु विल् सी दिस् खलु वर्ड् दण्डिड् एवं खलु इण्डिड् सत्यं खलु देट् इस् सो इण्डिड् दि क्लौड्स् डु नाट् एट् द क्रोप् इत्युक्ते खलु नद्यः स्वयम् एव अम्बः नृक्षाः स्वयम् एव स्वयं फलानि न खादन्ति वारिवाः खादन्ति खलु ओके रिवर्स् डु नोट् ड्रिङ्क्र् ओन् वाटर्स् दि ट्रीस् डु नाट् इट् डेर् ओन् फ्रूट्स् दि क्लौड्स् इण्ड इट् इट् द्रोप्स् तथैव बै गिविङ्ग् दिस् थ्री एक्साम्पल्स् आल् इन् प्लुरल् फार्म् परोपकाराय सतां विभूतय परोपकाराय सतां विभूतयः सतां सज्जनानां सज्जनाः सज्जनाः सेण्ट्लिमेन् नोबेल्मेन् सो अत्र विभूतयः इत्युक्ते लैफ् ओर् वेल्त् ओर् प्रोस्पेरिटि सज्जनानां विभूतयः परोपकाराय एव परोपकाराय परेषां sahayarth the wealth or the lives of good people noble men are only for helping others they themselves they don't take anything like rivers they do not drink their own water like trees they do not eat their own fruits all are for others only clouds indeed he do not eat the crops which are grown by them which are watered by them so the wealth of the prosperity of the life of all noble men all good people are for helping others paropakara ya paresham sahayarth eva satam vibhutayah now the point is today we have learned singular plural तेषां विविधानि रूपाणि कथं भवति इति हेविङ्ग् अण्डर्स्टुड् देट् पार्ट् ऐ थिङ्क् वी केन् अण्डर्स्टाण्ड् सुभाषितम् इन् अ बेटर् वे रैट् इफ् वी केन् डिस्टिङ्ग्विश् बिट्वीन् सिङ्ग्युलर् एण्ड् फ्लोरल् इट् इस् वेरि ईजि फोर् अस् इफ् वी डो व्याकरणम् वी केन् वि वेरि ईज़ी फार् अस् इन् सम्भाषणम् एस् वेल् एस् स्वस्य अवगमनार्थं तस्य लाभः भवति दट् वास् द पोयिण्ट् विच् वे वर् डिस्कसिङ्ग् अवगतं सत्यं खलु इदानीम् अस्माकं समयः अपि जातः कोऽपि वक्तुम् इच्छति वा स्वस्य भाषायां यद् वयं पठितवन्तः तस्मिन् विषये किम् अवगमनम् अभवत् इति स्पेक् भगिनी वयं वयं बाल्यकाले एतत् हिन्द्यां पठितवन्तः ओ हिन्दीभाषायां वा हिन्दीभाषायां हिन्दीभाषायां वृक्षकवि वृक्षकविनफलखाय नदी न सञ्चयनीर् कारने धरा शरीर. साधुन्धरा शरीरं भगिनी इतोपि संस्कृतमध्ये अपि समान अर्थम आ, एक सुभाषितम् अस्ति किल भगिनी अस्ति खलु परोपकारार्थं नद्यः वहन्ति परोपकारार्थं गावः दुहन्ति परोपकारार्थं फलन्ति अतः परोपकारार्थ इदं शरीरम् इति बहु सम्यक् ऐ थिंक्ी ह् डन् इट् राट् वेन् ऐ थिंक् इन् अवर् फिफ् और् सिक्स् सेशन्ी ह् डन् इट् वेरि नैस् वेरी नैस् सम्यक् इतोपि कोऽपि वक्तुमिच्छति राघव महोदय नाौ सी फ्रोम् नेक्स्ट् सेशन् आन्वर्ड्स् वी विल् मेक् दिस् ह्याबिट अट्लीस्ट् फार् लास्ट् फ्यू मिनिस् एवीबडी शुड् कम् फोर्वर्ड् अण्ड् जस्ट् वट् इव यू वट् टु स्पीक् डोण्ट् वरि वी आर् आल् हियर् फार् लर्निङ्ग् संस्कृत वी आर् आल् स्टूडेण्ट्स् अन्यभाषायामपि वक्तुं शक्नोति राघवमहोदय वदति वा अस्ति वा अत्र राघवमहोदय भवान् वदतु किमपि वदतु अस्माकं यत् कथा वयं पठितवन्तः तस्मिन् विषये कथायाः बोधः सुभाषितस्य बोधः न इच्छति वा <laughs> प्रयत्नं करोतु एकं वाक्यं वदतु वदतु वदतु विषयं न जानामि यत् वयं पठितवन्तः अद्य दिने सिङ्ग्युलर् प्लुरल् वा सिलिङ्गिपुल्लिङ्गिरूपाणि वा कथा कथायाः विषयः सुभाषितस्य विषयः तस्मिन् विषये किमपि वक्तुम् इच्छति चेत् वदतु यथा जयंती सा स्मृतवती खलु एकम् इतोपि एकं सुभाषितमस्ति अनिता भगिनी अपि हिन्दीभाषायां तत् वचनानि सन्ति तस्मिन् विषये अपि उक्तवती भवान् किमपि वक्तुम् इच्छति चेत् प्रयत्नं करोतु अस्तु अग्रिमे वर्गे वदति वा भवान् राघवमहोदय प्रयत्नं करोतु करो अग्रिमे भगिनी अग्रिमे वर्गे वदतु ओके सो नौ इफ् एनिबडि वाण्ट्स् टु से श्री uh, श्रीवत्समहोदय भवान् वदति आं भगिनि अभ्यासं संस्कृतभाषाया अभ्यासं अहं पाठशाले पठितवन्तः परन्तु परन्तु तस्मिन् काले अभ्यास i mean i want to say um we learn only for exam not not for not for learning i think ah um, tasmim kale like, vayam sarve pariksharthinah smah tasmim kale vayam parikshar thi... sarve um, pariksharthinah ah just for getting marks marks yes bhuna prapti katham bhavet tasse eva chintanam asmakam kurte tasmim samaye आं भगिनि इदानीम् इदानीं परन्तु इदानीं संस्कृतभाषा उप उपयोगं सम्भाषणे उपयोगं कर्तुमिच्छामि अहं सर्वे इद इदानीम् अहं um we, we are all in the, in, the, in this in this class um so yes for enriching our skills so santoshena vayam prayatnam kurmah sarve militva vayam santoshena prayatnam kurma na kevalam guna prapti iti asmakam uddeshah asli ha bagini bahut hi uttamah vichara uttamah vichara ha tathaiva agrimai varghe raghav <laughs> <laughs> mahoday <laughs> vadishyati ha अस्तु महोदय प्रयत्नं करोतु बहु बहु सम्यक् बहु सम्यक् सर्वेषां धन्यवादाः अग्रिमे वर्गे मेलिष्यामः धन्यवादः अन्या कस्याः उपयोगम् अस्ति बहु प्रोटेक्टिव् बि अस्ति बेहिनी मलब् अस्ति अस्माकं मार्गः इति न जानामि वन् अण्ड् हाफ् अवर्स्फुल्टिव् मै प्लेजर्मापय आगामि सप्ताहे सः अन्तिम आगामि मास अन्तिमे ना ना ना ना हाँ. हाँ. अस्तु परन्तु रेकार्डिङ्ग् यदा समयः लभ्यते चेत् रेकार्डिङ्ग् शृणोतु भवान् अस्माकमपि प्रमा प्रणामं ददा तु अग्रे अस्माकमपि चार्धां यात्रा निश्चयना इदानीम् अम्बिकापतिमहोदय शान्तिमन्त्रं वदति वा ॐ पूर्णमधपूर्णमिदं पूर्णा पूर्णमुदक्ष्यते पूर्णस्य पूर्णमाधाय पूर्णमेव वशिष्यते ॐ निशन्ति निःशान्तिः हरिः ओं सत्सद् श्रीगुरुज्यो नमः हरिः धन्यवादः धन्यवाद धन्यवादः धन्यवादः धन्यवादः मिलामः धन्यवादः पुनर्मिलामः